आपो अद्यान्वाचारिषं रसेन समग्स्महिः पयस्वानाग्न आगहितं मा संसृजवार्चसा आपो अद्यान्वाचारिषं रसेन समग्स्महीः पयस्वानग्न आगहितं मा संसृजवार्चस आपो अद्यान्वचारिषं रसेन समग्स्महीः पयस्वानग्न आगहितं मा